अथ श्रीगणेश पञ्चभत्रम् सुरागलोक दुर्लभम् विरागिलोकपूजितम् सुरा सुरैर्नमस्कृतम् जरापमृत्युनाशकम् गिरा गुरुम् श्रिया हरिम् जयन्ति यत्पदार्चकाः नमामितम् गणाधिपम् कृपापयः पयोनिधिम् गिरीन्द्र जामुखम्बुज प्रमोद दान भास्करम् करीन्द्र वक्रमान दाघ सङ्घ वारणोद्यतम् सरीशृपेश बद्ध शुकादि मौनि वन्दितम् गकार वाच्यमक्षरम् प्रकाममिष्टदायिनम् सकामनम्रपङ्क्तये सकाशकम् चतुर्भुजैर्विकास पद्म पूजितम् प्रकाशितात्मतत्त्वकम् नमाम्यहम् गणाधिपम् नराधिपत्वदायकम् सराधिलोकदायकम् स्वराधिरोगवारकम् निराकृता सुरव्रजम् कराम् भुजोल्लसत्सृणिम् विकार शून्यमानसे वृथा सदा विभावितम् मुदा नमामि विघ्नपम् क्षमापणोदन क्षमम् समाहितान्तरात्मना सुमादिभिः सदार्चितम् क्षमानिधिम् गणाधिपम् रमाधवादिपूजितम् क्षमानिषद्गुणप्रदम् नमामितम् विभूतये ऋणाधिपस्य पञ्चकम् प्रनामपूर्वकं प्रणाम पूर्वकम् जनाः पठन्ति ये मुदा युता